अथ षष्ठोऽध्यायः वो योहवै ज्येष्ठम् च श्रेष्ठम् च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानाम् भवति प्राणावै ज्येष्ठश्च श्रेष्ठश्च ज्येष्ठश्च श्रेष्ठश्च स्वानाम् भवत्यभितयेषाम् बुभूषदिय एवम् वेदात् लोभवै वे वसिष्ठाम् वेदवसिष्ठस्वानाम् भवति वाग्मै वसिष्ठा वसिष्ठस्वानाम् भवत्यपि च येषाम् बुभूषति वेदा लोहभैः प्रतिष्ठां वेद प्रतितितितितितितितितितितिष्ठति समे प्रतितितिष्ठति दुर्गे चक्षुर्मैः प्रतिष्ठा चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति प्रतिष्ठति समे प्रतितिष्ठति दि दुर्गे य एवं वेदा यो ह वै सम्पदं वेदसगृहास्मिपद्यते यङ्कामङ्कामयते श्रोत्रं वै सम्पच्छ्रोत्रे हि मे सर्वे वेदा अभिसम्पन्नाः सग्रेहास्मिपद्यते यङ्कामङ्कामयते य एवं वेदा यो ह वेदा, आयतनं वेदायतनज्ञस्वानां भवत्यायतनञ्जनानां मनो वा यतनमायतनज्ञस्मानाम् भवत्यायतनञ्जनानाय एवम् वेदा यो ह वै प्रजातिम् वेदप्रजायते प्रजायते ह प्रजया प्रजातिः प्रजायते ह प्रजया एवं वेदा ेहे मे प्राणाहग्रश्रेयसे विवदमाना ब्रह्मजग्मस्तद्धो च को न वसिष्ठ इति दद्धोवाच यस्मिन्वभुक्रान्तशरीरम् पापीयो मन्यते सवो वो इति ग्भोर्चक्रामसा संवत्सरम् प्रोश्यागत्यो वाच कथमशकतमधृते जीवितुमिति चक्षुर्होच्चक्रामतत्संवत्सरं प्रोश्यागत्यो वाच कथमशकथमगते जीवितमिति देहोतुल्यथान्धा पश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वासो मनसप्रदायमानारेतसैव मयि विष्मे श्रोत्रग्नेहाच्चामतत्संवत्सरं प्रोश्यागत्यो वाचकथमशकथमधृते जीवितमिति ते होत्र यथावधिरा शृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन बलन्तो वाचा पश्यन्तश्चक्षुषा विद्भामनसा प्रजायमानाधेतसैवमधिविष्मेरिप्रविदेशः श्रोत्रम् मनोः चक्रामतः संवत्सरं प्राश्यागत्यो वाच कथमशकथमधृते जीवितुविजिते होचर्यथा मुग्धा अविद्वाग्रसो मनसा प्राणन्तः प्राणेन बलन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमानालेतसैव मजीविष्मेति प्रविवेशः मनः रेतोः चक्राम तत्संवत्सरं प्रोश्या गत्यो वाचकथमशतमधिते जीवितमितितेहोचर्यथा अप्रजायमाना रेतसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्त श्रोत्रेण विद्वाग्ने मनसैव मजीविष्मेति प्रविवेशः रेतः अथः प्राणवुत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्मीशङ्कोन् संगृहे देवग्रहैवे मान् प्राणान् संवर्हते हो जन्म भगव उत्क्रमे वै शक्ष्यामस्तु धृते जीवितुमिति तस्यो मे बलिम् साहभागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षु यद्वा अहग्रे सम्पदस्मि त्वं तत्सम्पदसीति श्रोणै यद्वा अहमायदनमस्मि त्वं तदायदनमसीतिमना यद्वा अहं प्रजातिरस्मि त्वं तत् प्रजातिरसीति रेतस्तस्यो मे किमन्नं किं भासयिति यदिदं किं चाश्वभ्य आकृमेभ्य आकीटपदङ्गेभ्यस्तत्तेर्न मापो भासयिति न वा अस्यानम् जग्धम् भवति तदनस्यान्नं वेद तद्विद्वा स श्रोत्रिया अशिष्यन्त आचामन्दिषित्वाचामन्त्ये तमेव तदनमनग्नङ्कुर्वन्तो मे श्वेतक हवा आरुणे यशद्म स आजगाम दीबलि प्रवाहण पिचारयंदमुक्षाधुवादकु सभ इतिशुश्राशिष्टोन्वसी मित्रे हवा मास्प्रजा प्रयत्यो मास्प्रजाप्रयत्यो विप्रतिपद्यन्त इति नेति होवाच मेच्छो यथे मल्लोकं पुनरापद्यन्त हैवो वाच भेत्थो यथा सौ लोक एवं ब्रह्विः पुनः पुनः संपोरियता। सम्पूर्यता इति नेति हैवो वाच वेत्थो यतिच्छामाहुत्याग्रहुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती इति नेति हैवो देवयानस्य वा पथः प्रतिपदम् विद्रयाणस्य वा यत्कृत्वा देवयानम् वा पन्थानम् प्रतिपद्यन्ते विद्रयाणम् वापि हि न ऋषेर्वचः श्रुतम् दे सृति अशृणवम् भ्यामिदं विश्वमेतत्समेति यदन्तरापितरं मातरं चेति नाहमत एकञ्च न वेदेति होवाच अथैनं वसत्योपमन्त्रयाञ्चक्रेणादित्यवसतिं कुमारः प्रदुद्रावस आजगामपितरं मा तज्ञेहोवाचेति मामकिल नो भवान् पुरानुशिष्टानवोच इति कथगे सुमेध इति पञ्चमा प्रश्नान् राजन्यबन्धुरप्राक्षी ततो नैकं च न वेदेति कथमेध इति मयितिह प्रतीराजहारा सहोवाच तथा न त्वन्तादीथा यथा यदहम् किं च वेद सर्वमहन्तत्तुभ्यमवोचम् प्रेहित तत्र प्रतीत्य ब्रह्मचर्यम् वत्स्याम इति भवानेव गच्छत्विति स आदरामगौतमो यत्र प्रवाहणस्य जैवलेनासदस्मा आसनमाहृत्यरमाहारया काराथ स्म अर्भ्यं चकारतहोवाच पर भगवते गौतमाय दी सहोवाच प्रतिमेशस्ताूति सहोवाच दु वैगौतम सबू मषाणीती सहोवाच विज्ञायते हास्ति हिरण्यस्यापार्तङ्गो अश्वानां दासीनां प्रवाराणाम् परिधानस्य मानो भवान् बहोरणन्तस्यापर्यन्तस्याभ्यवदान्यभूदिति स इच्छासा दौतमतीर्थेनेच्छासा इत्युपैम्यहम् भवन्तमिति वाचा हस्मैव पूर्व उपयन्ति सहोपायनकीर् सहोवाच तथा नस्त्वम् लोरममापराधास्तव च पितामहायधेयम् विद्येतः पूर्वम् न कस्मिग्दश्चन ब्राह्मण उवासदा त्वहम् तुभ्यम् वक्ष्यामि को हि त्वयैवम् ब्रुवन्तमर्हरि प्रत्याख्यातुमिति ो वै लोको ग्यर्गौतम तस्यादित्ययेव सभिद्रश्मयो दोमो तस्मिन्ने अवान्तरदिशो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नो देवाः श्रद्धाञ्जिह्वति तस्या आहुति सोमो राजा पर्जन्यो बाहव्यर्दोत्तम तस्य संवत्सरयेव समिदभ्राणि धूमो विद्युदच्चिरशनिरङ्गाराह्नयो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नो देवाः सोमग्ने राजानन्विः प्रति गौतम तस्य पृथिव्ये वसमिदग्निर्धूमो रात्रिरश्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गास्तस्मिन्ने तस्मिन्नग्नौ देवा वृष्टिम् जुप्ति तस्या आहुत्या अन्नग्ने सम्भवति पयसो वा अग्निर्गौतम तस्य व्यात्तमेव समित् प्राणो धूमो वा गत्यश्चन्द्रङ्गारा श्रोत्रं विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा अन्नम् जुक्ति तस्य आहुतिरेतः सम्भवति योषा वा अग्निर्गौतम तस्या उपस्थयेव समिल् लोमानि धूमो यो निरच्चर्यदन्तः करोति तेन्दारा अभिनन्दा विस्फुलिङ्गास्तस्मिन्नेकस्मिन्नग्नौ देवा रेतो दुक्पति तस्या आहुत्यै पुरुषः सम्भवति स जीवति जीवत म्रियते ग्नये हरन्ति तस्यारेवाभवति समित् समित् धूमो धूमो चिरच्चिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फुलिङ्गा तस्मिन् तस्मिन्नग्नौ देवाः पुरुषम् जुक्पति तस्या आहुति पुरुषो भास्वरवर्णः सम्भवति ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धा सत्यमुपासते ते चिरभिसम्भवन् यच्छिषो हरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासानुदङ्गानित्ययेति मासेभ्यो देवलोकम् देवलोकादानित्यमानित्या वैद्युतन्तान् वैद्युतान् पुरुषो मानसहेत्य ब्रह्मलोकान् गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषान्न अथ ये यज्ञेन दानेन तपसा लोकाज्जयन्ति ते धूममभिसम्भवन्ति धूमाद्रात्रिज्ञ रात्रैरपक्षीयमाणपक्षमपक्षीयमाणपक्षाद्यान् षण्मासान् दक्षिणादित्ययेति मासेभ्यः पितृलोकं पितृलोकात् चन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति राज्ञस्तत्र देवायथा राजानमाग्राय स्वा भक्षीयस्वेत्येवमेनाग्स्तत्र भक्षयन्ति तेशायदा शाद् वायुं वायोर्वृष्टिं वृष्टे पृथिवीं ते पृथिवीं प्राप्यान्नं भवन्ति ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते ते, ते लोकान् प्रत्युत्थायिनस्त एवमेवानुपरिवर्तन्ते थय एतौ पन्थानो न विदुस्ते स यः कामयेतमः प्राप्नुया विद्युदगयन आपूर्यमाणपक्षस्य पुञ्ज्याहे सेचमसेवा सर्वौषधं सरलिप्यापरी स्थीरियाता जेस्यपुसा नक्षत्रेण मंथग्रे सन्नीयजुहोती यो देवास्ति जातवेदस्तर घंति पुष्ठ से काम भ्योऽहम् भारधेयम् ज्योमि ते मातृप्ताः सर्वैः कामैस्तवयन्त स्वाहा यातिरश्चीनि पद्यतेऽहम् विधरणि इति तान्त्वाघृतस्य धारया यजे स्वर्गे राधनी महज्ञ स्वाहा ज्येष्ठाय स्वाहा श्रेष्ठाय मन्थे सज्ञश्रवमवनयति प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नो हुत्वा मन्थे सज्ञश्रवमवनयति वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नो हुत्वा मन्थे सज्ञश्रवमवनयति चक्षुषे स्वाहा सम्पदे स्वाहेत्यग्नौ हुत्वा त्वामन्थे सज्ञश्रवमवनयति श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नो हुत्त्वा मन्थे सज्ञश्रवमवनयति मनसे स्वाहा प्रजावति स्वाहेत्यग्नो हुत्त्वामन्थे सज्ञश्रवमवनयति रेतसे स्वाहेत्यग्नो हुत् त्वामन्थे सज्ञश्रवमवनयति अग्नये स्वाहे त्यग्नो हुत्ता मन्थे सर्गश्रवमवनयति सोमाय स्वाहे त्यग् हुत्ता मन्थे सर्गश्रवमवनयति भू स्वाहेत्यग्नौ हुत्वा मन्थे सर्गश्रवमवनयति भुव स्वाहे त्यग्नो सग्गश्रवमवनयति स्ववाहेत्यग्नौ हुत्वा त्यग् हुत्वा मन्थे सज्ञश्रवमवनयति ब्रह्मणे स्वाहे त्यग्नो हुत्वा मन्थे सज्ञस्रवमवनयति क्षत्राय स्वाहे त्यग्नो हुत्वा मन्थे सग्स्रवमवनयति भूताय स्वाहे त्यग् हुत्वा मन्थे सज्ञश्रवमवनयति भविष्यते स्वाहे त्यग्नो हुत्वा मन्थे सज्ञस्रवमवनयति विश्वाय स्वाहे त्यग् मन्थे सद्गश्रवमवनयति सर्वाय स्वाहे त्यग्न हुत्वा मन्थे सर्गश्रवमवनयति प्रजापतये स्माहेत्यज्ञा हुत्वा मन्थे सग्गश्रवमवनयति अथै नमभिमृशदि भ्रमदसि ज्वलदशिभोर्नमसि प्रस्तभ्रमस्येतश भमसि हिङ्कृतमसि हिङ्क्रियमाणमस्युद्गीतमस्युद्गीयमा नमसि श्रावि तमसि प्रत्याश्वावि तमस्याद्रे संदीप्तमसि विभोरसि प्रभोरस्य नमसि ज्योतिरसि निध नमसि सम्भर्गोऽसीति अथैनमुद्यच्छत्यामज्ञस्यामग्रे हि ते महिष हि राजेशानाधिपतिः समाग्रे राजेशानाधिपतिम् करोत्विति अथैन माचामति तत्समि दुर्वरेण्यम् मधुवातारितायते मधुक्षरन्ति सिन्धवः माद्भीर्णः सन्तोषधीः भूस्वाहा देवस्य धीमहि मधुनक्तमुतोषसो मधुमत्पार्थिमग्नरजः मधुद्दौरस्तु नः पिता भुवः स्वाहा धियो यो नः प्रचोदयात् मधुमान्न वनस्पतिर्मधुमा अस्तु सूर्यः मा दीर्गावो भवन्तु नः स्वाहे सर्वा चा सर्वा मधुमतीरा मेरग्नेवयासं भूवस्व स्वाहेत आचम्यपाणी प्रक्षाजन न्यं प्राक्षिरा संविशतितरा निपतिषते दिशापुंडी कमस्हमुष्याणकुंडरी कं भूयासमी ज घनेसीन वग्ने शपतीत मुद्दा आरुर्वाचसनेवल्यासिन उोवाचा यने शुष्केशिचे ध्याखा प्ररोहेय पलाशानीति एतमुहैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्देवासिन उक्तो वाचापि ययेन शुष्के स्थानो निषिञ्चे ध्यायेरन् शाखाः प्ररोहेयः पराशाीति एतमुहैव मधुकः पैङ्गश्चूराय भागवित्तये देवासिन उक्तो वाचापि शुष्क स्थानो निषिचे जायेर छाखा प्ररोसानी ये तमुह झोलो भागवित या आय स्थूणायासीन उल्लोवाचापियन गे शुष्क स्थानो निषिचे जायेर छाखा यीति सत्यकामाय या बालायां ते वासिन भुक्तो वाचापियेनग्ने शुष्के स्थाणो निषिञ्चे पलाशा पलाशाीति तमेतन्ना पुत्राय वनम् ते वासिनेवाब्रूया चतुरौदुम्बरो भवत्यौदुम्बरस्रुव औदुम्बरश्चमस औदुम्बर युध्व औदुम्बर्या मन्थन्योदशग्रान्याणि धान्यानि भवन्ति प्रीहि यमास्तिलमाशा अणुप्रियम् गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान्विष्टान्दधलिमधुनिघृतमुपसिञ्चत्याजस्य जुहोति येषाम् वैभूतानाम् पृथिवीरसः पृथिव्याः आपोपामोषधय ओषधीनाम् पुष्पाणि पुष्पाणाम् फलानि फलानाम् पुरुषः रेतः सः प्रजापतिरीक्षाञ्चक्रे हन्तास्मै प्रतिष्ठाम् कल्पयानीति स उपास्त तस्मात् श्रियमध उपासीत स तस्या वे निरुपस्थो लोमानि बहिश्चर्माधिशवणे समिद्धो मध्यतस्थौ मुष्कौ स यावाह्नवै वाजपे येन यजमानस्य ये लोको भवति तामानस्य लोको भवति य एवम् विद्वानधोपः सञ्चरत्या साज्ञस्त्रीणा य सुकृतम् वृन्देधय इदमविद्वानधोपः त्यस्म वै तिद्वालक आरणिराहै त्यस्म वै तद्द्वान्नागल्य आह तस्म वै तद्द्वान्कुमर हीता आहबहव मैया ब्राणांद्रियास्मा लोका य इदमविद्वाग्ने सोऽधोपहा सञ्चरन्तीति बहु वा इदग्रे सुस्य वा जाग्रदो वारेतस्कन्दति तदभिमृषेदनु वामन्त्रयेत यन्मेद्यरेतः पृथिवीमस्कान्सीद्यदोषधीरप्यसरद्यदपः इदमहम् तद्रेत आददे पुनर्मा मयित्विन्द्रियम् पुनस्तेजः पुनरव्यग्धिष्ठा यद्युदक आत्मानम् परिपश्येत्तदभिमन्त्रयेत मयितेज इन्द्रियै यशोद्रविणग्रे सुकृतमिति श्रीर्हवा एषा स्त्रीणायन्मलोद्वासास्मान्मलोद्वाससै यशस्विनीमभिक्रम्योपमन्त्रयेत सा चेदस्मै न दद्यात् काममेनामवक्रीणीयात् सा चेदस्मै नैव दद्यात् काममेनायष्ट्या वापाणिना गोपहत्यादि क्रामेदिन्द्रियेण ते यशसा यश आदद इत्ययशा एव भवति सा चेदस्मै दग्यादिन्द्रियेण ते यशसा यश आदधामीति यशस्विनावेव भवतः स यामिच्छेत्कामयेतमेति तस्यामर्थम् निष्ठाय मुखेन मुखज्ञे स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादये मामोङ्मयीति अथयामिच्छेन्नम् दधीतेति तस्यामर्थन्निष्ठाय मुखेन मुखग्रे सन्धायाभिप्राण्यापाण्यादिन्द्रियेण ते हेतसा हेतहादज इत्यरेता भवति अथयामिच्छेद्दधीतेति तस्यामथन्निष्ठाय मुखेन मुखग्ने रेत आदधामीनि गर्भिण्येव भवति अथ यस्य जायायै जानस्यात्तम् चेद्विश्या धामपात्रे गिमुपसमाधाय प्रतिलोमग्नेशरबर्हिस्ति ता तस्मिन्नेता शरभृष्टिः प्रतिलो मा सत्तिषात्तादुह्यान्नम समिद्धे हौषिः प्राणा मम समिध्येहौषी पुत्रपशो यस्त आदिदेशा विधि मम समिध्येहौ शीरीष्टा सुकृते द आदिदेशा विधि मम समिध्येहौ क्षीराशा पराकाशौ त आदिदेशा विधि सपा एषणिरिन्द्रियो विसुकृतोऽस्माल्लोकात् प्रैतियमेवं विब्राह्मणशपति तस्मादेवं विच्छ्रोत्रियस्य दारेण नोपः समिच्छे ेवम्वित्पर भवति अथ यस्य जायामार्तवम् विन्देत्यहङ्गशेनपि भेदः तवासानेन मृषल न वृषल्यमहन्यात्रिरात्रान्त आप्लुत्यव्रीहीनवघातयेत् ययिच्छेत् पुत्रो मे शुक्ल जायेत वेदमनुब्रुवेत सर्वमायुर्यादिदीक्षीरोदनं पाचयित्वा सर्पिष्मन्तमश्मि जातामीश्वरो जनयित वै अथ ययिच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेतद् द्वौ वेदामनुब्रुवीत सर्वमायुर्यादिदिदध्योदनम् यित्वा सर्पिष्मन्तमश्नि जातामीश्वरो जनयित वै अथयिच्छे पुत्रमे श्याम लोहिताक्षजायेतत्रीन्वेदाननुब्रुवेत सर्वमायदियादित्युदौदनम् पाचयित्वा सर्पिष्मन्तमश्नि जातामीश्वरो जनयित अथयिच्छे इच्छे दुहितामे पण्डिता जायेत सर्वमायुनियादिति नौदनम् पाचयित्वा सत्पिष्मन्तमश्मी जातामीश्वरो जनयित वै अथ ययिच्छेत्पुत्रो मे मण्डितो विजिगीतः समितिङ्गमः शुश्रूषिताम् वाचम् भाषिता जायेत सर्वान् वेदाननुब्रुवेत सर्वमायुनिमागसौदनं पाचयित्वा सत्पिष्मन्तमष्टि जातामीश्वरो जनयितः वा औषण पार्षभेण वा अथा प्रातरव स्थलपाकावृताजेषिथीकोपातहोत स्वाहा अनुमत स्वाहा देवाय सब सत्य प्रसवाय स्वाहे धृत्य प्राश्नाये प्राश्धर से प्रय्छति प्रक्षा पाणीमात्र पूरयि क्षत्युत्तिष्ठातो विश्वावसो न्यामिच्छप्रभूर्व्याज्ञसञ्ज्ञायाम् पत्या सहेति अथैनामभिपद्यते नाम सा त्वज्ञे सा त्वमस्य मोहज्ञे सा माहमस्मि हृक्त्वम् द्यौरहम् पृथिवी तावेहि सज्ञरभावहै सह देतो दधावहै पुत्राय भित्तय धा उरोविहापयति ऊरो विहापयति विधिहीतावापृथिवी इति तस्यामर्थन्निष्ठाय मुखेन मुखज्ञसन्धाय त्रिणामनुलोमा मनुमार्ष्णी विष्णुर्जानिम् कल्पयत त्वष्टा लोपाणि विज्ञेषतो गर्भंधे जिनी वाला गर्भंधे पृथुष्णु गर्भंधे अश्विनौ दुष्क स्रज हिणी अरणीभ्यांथतानौंते गर्भग्ह हवामह दश मे मासी सूतए यृथिवी यौरी गर्णी य गभं दधाते शोश्यी मद्भिभ्युक्षति यहा पुष्किणी सी गयति ये वाते ते गर्भ एजत स हा वैतु जरायु इंद्र सेजकृत सागल सपरिश्रय तमींद्रेज हि गर्भेण सवराग्र सहेजातेपस आधाक्रेषदाज्य सीयपिषदाज्योपघातुहस्म सहस्रं शुष्य सधम से स्वपसन्न्यामाच्छीत्सीत्त्वजया च पशुभिश्च स्वाहा मयि प्राणाग्न्यस्त्वयि मनसा जुहोमि स्वाहा यत्कर्मणात्यरे चै यद्वान्यो नमिहाकरम् अग्निष्टत्स्विष्टगद्विद्वान् स्विष्टग् सुहृदम् करोतु न स्वाहेति तथास्य दक्षिणम् कर्ममभिनिधाय वाग्वागिति त्रिरथदधिमधुकृतज्ञे सन्नीजानन्तरहितेन जातरूपेण प्राशयति भूस्ते दधामि भुवस्ते दधामि दधामि भो भोवस्वः सर्वम् कै दधामीति अथास्य नाम करोति भेदोऽसीति तदस्य तद्बुह्यमेव नाम भवति अधैनम् मात्रे प्रदायस्तनम् प्रयच्छति यस्ते स्तनः शशयो व्योमयो भूर्यो रत्नधावसु विद्यः सुक्रः येन विश्वा पुष्यसि वार्याणि सरस्वतितमिह धातवे करिति अथास्य मातरमभिमन्त्रयते इडासि मैत्रावरुणी वीरे वीरमजीजनत् सा त्वम् वीरवती भवयास्मान्वीरवतोकरदिति तम् वा एतमाहुरतिमिता बताभो रतिमितामहो बताभोः परमाम्बतकाष्ठाम् प्रापच्छ्रिया यशसा ब्रह्मवच्चसेन एवम् विदो ब्राह्मणस्य पुत्रो जायत इति थेषौतिमासे पुत्रः कात्यायने पुत्रात् कात्यायने पुत्र गौतमे पुत्राद्गौतमे पुत्र भारद्वाजे पुत्रात् भारत पुत्र पाराशरी पुत्रात्शरी पुत्र औपस्वस्थ पुत्रादपस्वराशरी पुत्रा पाराशरी पुत्र का पुत्र कौशिकी पुत्रा कौशिकी पुत्र आलमी पुत्रच पुत्रः त्रेयी पुत्रा धात्रेयी पुत्र गौतमी पुत्रात् गौतमी पुत्र भारद्वाजीपुत्रात् भारद्वाजीपुत्रः पाराशरी पुत्रात् पाराशरी पुत्र भात्सीपुत्रात् भात्सीपुत्रः पाराशरी पुत्रात् पाराशरि पुत्र आन्तभागे पुत्रादात्तभागे पुत्राच्छौगे पुत्रस्सांकृते पुत्रात् सांकृते पुत्र आलम्बायने पुत्रदालम्बायने पुत्र आलम्बे पुत्रादालम्बे पुत्र जायन्ते पुत्रायन्ते पुत्र माण्डुगायने पुत्रान् पुत्रश्चाण्डिनी पुत्राण्डिनी पुत्रौ राधीदरी पुत्राद् भालुगी पुत्रात् भालुगी पुत्रः कौञ्चिकी पुत्राद्भ्याङ्कौचिकी पुत्रौ पुत्रात् वैरभृति पुत्रात् कार्शगेये पुत्रः प्राचीनयोगी पुत्रात् प्राचीनयोगी पुत्रा साञ्जीवी पुत्र प्राश्नि पुत्रा दासुरि वासुनः प्राश्नि पुत्र आसुरायणादासुरायण आसुरेरासुरिः याज्ञवल्ल्याद्या दालकादुद्दालकौरुणादरुणमुपवेशेरुपवेशिः कुश्रेः कुश्रर्वाज श्रवसो वाच्रवायिः पावतो गणो हरिता कश्यरितः कश्यपः शिल्पा कश्यपा शिल्पः कश्यपः कश्यपा, कश्यपा नैध्रुवेः कश्यपो नैध्रुवेल्वाचो भागम्भिज्ञाभिज्ञादित्यादादित्यानिमानि शुक्राणि यजोग्रशिवाजसनेयेन याज्ञवल्क्येनाख्यायन्ते समानमासाञ्जीविमुत्रात् साञ्जीवी पुत्र माण्डुगायनेर् माण्डुगायनेर् माण्डव्यान् माण्डव्यौत्स कौत्स स्यः कुश्रेः कुश्रर्यज्ञवचसौराजस्तम्पायनाद्यज्ञवचाराजस्तम्बायनस्तुरात् कावशेयात्तुरः कावशेयः प्रजापदेः प्रजापदर्ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः वशिष्यते ओम् शान्तिश्शान्तिश्शान्तिः ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशऋषिभ्यो नमो गुरुभ्यः सर्वोपलहितप्रज्ञानघनप्रत्यगर्थो ब्रह्मैवाहमस्मि ब्रह्मैवाहमस्मि इति षष्ठोऽध्यायः